मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं फिफ़्टि वन् विघ्नराजावतारवर्णनं श्रीगणेशाय नमः मुद्गल उवाच केनापि विघ्नदैत्यस्य स्थानं न सदा कालस्य गणनाधस्तु ययौ तस्याश्रमं प्रभुः विघ्नमंगुशे न तुष्ट्वा पर्य दे ततस्थ साल प्रम्यगजाननम अंतर्धय स्वत्मा बूवोक्य संस्थित ज्ञावा तेजस्तृ्रित विघ्नं गजाननक्रुद्धो वायुसंहारको भवद ततः कालस्वयं दक्षा भवदाकाशतत्वगः वायुस्तं गणनाथं स कर्षयामासदारुणः आकाशस्तमहाकालं ज्ञात्वा कङ्कारधारकः गजाननश्च तं क्रुद्धो कर्षयत् प्रलयम् प्रभुः तदो विष्णो महत्तत्त्वं समाश्रित्य गजाननं ताडयामास सङ्क्रुद्धकालकलयदां प्रभुः तदो गजाननक्रुद्धप्रधानरूपतारकः महत्तत्त्वस्थमेवं तं दारुणं तदो भवत्सोऽपि त्यक्त्वा गुणेशगः प्रधानं हन्तुमारेभे कालपरमदुर्जयः ततो गजाननसाक्षात् बिन्दुब्रह्मस्थितो भवद चतुष्पादमहीं शक्रिं हन्तुं शिक्षेप सोऽन्तकम् गुणे शान्नपरः कालस्ततः विक्रमः कालोमायां चतुष्पादां निरीक्ष्यत्रासिदो भवद शक्तिं दृष्ट्वा महाकोरां कालगर्वहरां परां शरणं गणराजं स ययौ कालप्रजापदे समागतं महाविघ्नं देवा मुनिगणास्तदः विस्मिताश्चाभवन् सर्वे जयेधिगणपं जगुः विघ्नाः सुरप्रणम्यादौ पुपूजः गजाननम् तद्दर्शनज बोधेन तुष्टावस कृताञ्जलिः विघ्नासुर उवाच नमस्ते गणनाधाय गजाननस्वरूपिणि योगाय योगनाधाय योगिभ्यो योगदायिने अनाकाराय साकाररूपायते नमो नमः नानाभेदविहीनाय भेदानां पतये नमः विघ्नेशाय परेशाय कालभीधिहराय ते हेरम्बाय परेषां वै परात्पर नमो नमः अनादये ह्यनाधाय सर्वेषामादिमूर्तये भक्तेशाय सदा भक्तवाञ्छितप्रतते नमः स्वानन्दवासिने तुभ्यम् मूषकध्वजिने नमः मूषकोपरिसंस्थाय डुण्ढिराजायते नमः आदिमध्यान्दहीनायादिमध्यान्तस्वरूपिणे गजवक्त्राय वैतुभ्यं सर्वपूज्यायते नमः सिद्धिबुद्धिस्वरूपाय सिद्धिबुद्धिप्रदाय च सिद्धिबुद्धिपदे तुभ्यं महोदर नमो नमः अमेयमायाधिकमूर्तयेऽपि ते सदा सुशान्तिप्रदपूर्णमूर्तये मनो वचो हीनमयाय तेजसे मनो वचो युक्तकलाय ते नमः अज्ञानदोषेण कृतोपराधोकेरम्बतं क्षन्दो मिहार्हसि त्वं रक्षस्व मां भक्तियुदं दयाब्धे श्रेष्ठं वरं देहि परेशपाल अधुना हि मया बुद्धं स्वरूपं ते गजानन योगाकारमयोऽसि त्वं तदोऽहं निर्जितस्त्वया ं विनाका समर्थस्यात्कालं कलयदां प्रभुं जेतुं धन्यकृदो नाध पादपद्मस्य दर्शनाद एवं स्तुत्वा महा महाविघ्नप्रणनामगजाननं तमुद्दाप्य जगादेदं वचनं सर्वधः परः श्रीगजानन उवाच त्वया कृतं मदीयं वै स्तोत्रं सर्वप्रदं भवेत् कालस्य न भयं तेषां पठतां शृण्वतां सदा यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः महायोगप्रतं चास्तु स्तोत्रं मत्प्रीतिवर्धनं हन्तुं त्वां क्रोधसंयुक्त आगतोऽहं न संशयः वाञ्छिदम् वृणुनो हन्मि अधुना शरणार्थिनम् महाकाल उवाच भक्त्रिं देहि त्वदीयां मे सुदृढां ताम् गजानन दासरूपेण मां नाथ रक्षस्व त्वत्समीपगम् ब्रह्मेश कार्यम् कथय का तत्करिष्यामि यन्द्रितः स्थानं भक्ष्ययुधम् देहि तत्र तिष्ठामि नित्यशः मन्नामपूर्वकं नाम कुरुत्वं दे गजानन सर्वसिद्धिकरं नाथ पूर्णयोगप्रदं परं जगादगणराजस्तु ततस्थं भक्तमुत्तमं निर्विकल्पं मनस्तस्य ज्ञात्वा भक्तप्रपालकः श्रीगजानन उवाज मदिया मदीया भक्तिरला भविष्य तवा नक्ष ते चास्तु सर्वदा, मत्समीपे गणो भूत्वा महा भूत बल संयु महाविघ्नस्वूपेण ना राजेदि मन्नाम भविष्यदि सुसिधिद ब्रह्मभूयकरं पूर्णं वाञ्छितार्थप्रदायकं यत्र मे नास्ति कर्मादव पूजनं तथा तत्सर्वं भुक्ष्व विघ्नत्वं भ्रंशयित्वा सुरेन्द्रकान् शिव देवा अन्ये मुनि मुखा नराः शेषाद्या नागराजास्ते नानाजन्तव एव च अहङ्कारेण संयुक्ता भवन्ति यदि ते सुर तदा तान् भ्रंशयित्वा त्वम् भुङ्क्ष्वभोगान् यथेप्सितान् मद्भक्तिकारिणः सर्वे त्वया पाल्या विशेषतः तेषाम् निर्विघ्नभावेन पुरो भावपरो भव मुक्त्वार्दधेस्सौ गजाननप्रतापवान् विघ्नो विघ्नैः समायुक्तशान्तरूपो समाय। बभूवः देवामुनिमुखाः सर्वे स्वस्वस्थानं ययुस्तदः सपत्नीकस्तत्र पार्श्वो मूर्च्छिदो भूत् प्रजापदे तयोर्हृदिगणाधीशप्रकटो भूध्वजो ब्रवीद मां चिन्तामणिरूपं ते पश्यताद हृदि स्थितं मूर्तौ पूजनमात्रेण हृदि ध्यानेन मानदौ सन्धुष्टौ जनकौ नित्यं संशयो न भविष्यधः यदा मे स्मरणं तातौ महाकाव्ये करिष्यथः द्रक्ष्यधो मां न सन्देहो योगशान्तौ दाव भविष्यथः एवमुक्त्वा दधेशोऽपि गणेशो हृदिरूपधृक तौ स्वस्थौ मूर्तिमास्थाप्य निरन्तरमपूजताम् इति ते गणराजस्य कथितं चरिदम् महद अंशा गजाननस्य इदे अवताराविधे स्मृताः वरेण्यपुत्रभावेन बभूवः गजाननः कस्मिन् काले वधार्थाय सिंधूर न संशय कलभेदाण नापर प्रभु गजाननों ह्यभूदर्णयुद्वा न शक्य इद्या बखवो भेद गजानन से वर्णय प्रजापद संक्षेपेण मैं तोभ्यं कथित पापनाशनम चनराज से भुक्ति मुक्तिलदम ओं तत्सदी श्रीमदांद्ये महापुराणोपनिषदि श्रीमगले महापुराणे चतुर्थे खंडे गजानन चरिदे राजा चिदे विघ्नराजर्णनमच्तम Oh, oh, oh.